अथा अथ चतुर्दशः सर्गः अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ऋष्यशृङ्गम् पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः कर्म कुर्वन्ति वेदपारगाः यथाविधि यथा न्यायम् परिक्रामन्ति शास्त्रतः प्रवर्ग्यम् शास्त्रतः कृत्वा तथैवोपसदम् द्विजाः चक्रुश्च विधिवत् सर्वमधिकम् कर्म शास्त्रतः अभिपूज्य तदाहृष्टाः सर्वे चक्रुर्यथाविधि प्रातः सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतो नघः मध्यम् दिनम् सवनं प्रावर्तत यथा क्रमम् तृतीयसवनम् चैव राज्ञोऽस्य सुमहात्मनः चक्रोस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः आह्वयाञ्चक्रिरे तत्र चक्रादीन् विबुधोत्तमान् ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः होतारोदुराबाह्य हविर्भागान्दिवौकसाम् न चाहुतमभूत् तत्र दृश्यते ब्रह्मवत् सर्वम् क्षेमयुक्तम् हि चक्रिरे न सुश्रान्तो वा क्षुधितो वा न दृश्यते नाविद्वान् ना ब्राह्मणः भुञ्जते नित्यम् नाथवन्तश्च भुञ्जते तापसा भुञ्जते चापि श्रवणाश्चैव भुञ्जते वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च अनिशम् भुञ्जमानानाम् न तृप्तिरुपलभ्यते दीयताम् दीयतामन्नम् वासाम् विविधानि च इति सञ्चोदितास्तत्र तथा चक्रुरणे कषः अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा अन्नपाणैः सु विहितास्तस्मिन् यज्ञे महात्मनः अन्नम् हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः अहो तृप्ताः स्म भद्रन्ते इति शुश्रावराघवः स्वलङ्कृताश्च पुरुषाः ब्राह्मणान् पर्यवेशयन् उपासंते च तानन्ये सुमृष्टमणिकुण्डलाः कर्मांतरे तदा विप्राहेतुवादान् बहूनपि प्राहुः सुवाग्मिनोऽधीराः परस्परजिगीषया दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः सर्वकर्माणि चकृस्ते यथा शास्त्रम् प्रचोदिताः नाषडङ्गमिदत्रासीन्नाव्रतो नाबहु सदस्यास्तस्य वैराज्ञो नावादकुशलो द्विजः प्राप्ते तस्मिन् षड्वैल्वाःखादिरास्तथा तावन्तो तथा परे श्लेष्मातकमयो देवदारुमयस्तथा द्वावेव बाहुव्यस्तपरिग्रहौ कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञको विदैः शोभार्थम् तस्य यज्ञस्य काञ्चनालङ्कृता भवन् एकविंशति यूपास्ते सर्वे शिल्पिभिः सुकृता दृढाः अष्टास्त्रयः पूजिताः सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि इष्टकाश्च यथा न्यायम् कारिताश्च प्रमाणतः चितोग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि सचित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् रगाः पक्षिणश्चैव यथा शास्त्रम् प्रचोदिताः सामित्रे तु हयस्तत्र तथा जलचराश्च ये ऋषिभिः सर्वमेवैतन्नियुक्तम् शास्त्रतस्तदा पशूनाम् त्रिशतम् तत्र योपेषु नियतम् तदा अश्वरत्नोत्तमम् तत्र राज्ञो दशरथस्यः कौसल्यातम् हयम् तत्र परिचर्य समन्दतः कृपाणैर्विससारैनम् त्रिभिस्तरमयामुदा पदत्रिणा तदा सार्धम् सुस्थितेन च चेतसा अवसद्रजनीमेकाम् कौसल्या धर्मकाम्यया हस्तेन समयोजयन् महिष्यापरिवृत्याथवातामपराम् तथा परत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः धूमगन्धम् वपायास्तु जिघ्रति स्म नराधिपः यथा कालम् यथा न्यायम् निर्नुदन् पापमात्मनः हयस्य चाङ्गानि तानि सर्वाणि ब्राह्मणाः अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः प्रक्षशाखासु यज्ञानामन्येषाम् क्रियते हविः अश्वेध्य यतसौ भाग इश्यध सख्या कलूत्रेण ब्राह्मण चतुष्टो मम हस्त प्रथम परीक्यंतीय सतमतिरात्रोर कारिता बहवो विता शास्त्रदर्शना ज्योतिषोषी चरात्रो चर्म अभिजिद्विश्वजिच्छैवमाप्तो यामौ महाक्रतुः प्राचीम् होत्रे ददौ राजा दिशम् स्वकुलवर्धनः अध्वर्यवे प्रतीचीम् तु ब्रह्मणे दक्षिणाम् दिशम् उद्गात्रे तु तथोदीचीम् दक्षिणैषा विनिर्मिता अश्वमेधे महायज्ञे स्वयम् भूविहिते पुरा कृतम् समाप्य तु पुरुषर्षभः ऋत्विभ्यो हि तदौ राजा धराम् ताम् कुलवर्धनः एवन्दत्वा दत्त्वा प्रहृष्टोऽभूत् श्रीमान् इक्ष्वाकुनन्दनः ऋत्विजस्त्वब्रुवन् सर्वे राजानम् गत किल्बिषम् भवानेवमहीम् कृत्स्नामेको रक्षितुमर्हति न भोम्याकार्यमस्माकम् न हि वयम् नित्यम् हि भूमिपा निष्क्रयम् किञ्चिदेवेः प्रयच्छतु भवानिति मणिरत्नम् सुवर्णम् वा गावो यद्वा समुद्यतम् तत्प्रयच्छ नृपः श्रेष्ठधरण्यानप्रयोजनम् एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः गवांशतसहस्राणि दशतेभ्यो ददौ नृपः दशकोटिम् सुवर्णस्य रजतस्य चतुर्गुणम् ऋत्विजस्तु ततः ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ततस्तेऽन्यायतः कृत्वा प्रविभागम् विजोत्तमाः स्वप्रीतमनसः सर्वे प्रत्योचुर्मुदिता भृशम् ततः प्रसर्पकेभ्यस्तु हिरण्यम् सुसमाहितः जाम्बूनदम् कोटिसङ्ख्यम् ब्राह्मणेभ्यो ददौ तदा दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् कस्मैचि याचमानाय ददौ राघवनन्दनः ततः प्रीतेषु विधिवद्विजेषु द्विजवत्सयः प्रणाममकरोत्तेषाम् हर्षव्याकुलितेन्द्रियः तस्या शिशोऽथ उदारस्य नृवीरस्य धरण्याम् पतितस्य च ततः प्राप्य यज्ञमनुत्तमम् पापापहम् स्वर्नयनम् दुस्तरम् पार्थिवर्षभैः ततोऽब्रवीदृश्यशृङ्गम् राजा दशरथस्तदा कुलस्य वर्धनम् तत्तु कर्तुमर्हसि सुव्रता तथेति च स राजानमुवाच द्विजसत्तमः रस्ते कुलोद्बहाः स तस्य वाक्यम् मधुरम् यतस्मै प्रयतो नृपेन्द्रः जगामहर्षम् परमम् महात्मा तमृष्यशृङ्गम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः